गणेशपुराणम् उपासनाखण्डम् अध्यायम् सिक्स् सूत उवाच इति तद्वचनं श्रुत्वा च्यवनो भृगुनन्तनः त्वरया स्वमुपादाय कलशं जलसम्भृश्यं दुःखितपरदुःखेन तूष्णीमेवागमगृहम् तम् भृगुः परिपप्रच्च विलम्बपारिणं भृगुरुवाच किमपूर्वं त्वया दृष्टं लक्ष्यस्य चकितो यथा विलम्बश्च कथं जातो वदपुत्रममाग्रदः पुत्र उवाच सौराष्ट्रदेशे विख्याते दैवते नगरे मुने सोमकान्त इति ख्यातो राजाराजीवलोचनः चक्रे बहुतिधं बहुतिधम् धर्मेण पालयन् प्रजाः दुग्भगत्वम् गतो दैवात्पुत्रराज्यम् निवेश्य निवेश्यसः पत्न्या सुधर्मया युक्तो भर्तुराज्ञा धृता पितः सुबलत् ज्ञानगम्याभ्यां प्रकृधिभ्यामिहा गदः गलत्कुष्ठीकृमियुतो विभ्रमं दुर्गमं सरः सहस्रभगदाप्राप्तो यथेन्द्रो गौदमान्मुनेः क्व क्वसा सुधर्मा चार्वङ्गि क्व गलत्कुष्ठवान् पतिः इति मे पृच्छदो वृत्तं तदीयं गतवान्क्षणः तदीयै करुणावाक्यैर्मनो मे कलिलं त्वभूत् तदोहं कलशं पूर्णं कृत्वा शीघ्रमुपागतः सूत उवाच सर्वं च कथयत्तस्मै तया यत्कथितं वचः श्रुत्वा तच्च पुनः पुत्रं च्यवनं भृगुरब्रवीद भृगुरुवाच सर्वानानयदां शीघ्रं पुत्र गच्छ ममाज्ञया द्रक्ष्यामि कौतुकं तेषां स्वीयं वा दर्शयामि तान् सुत उवाच युद्ध स चोदिध पिद्राच्यवनकुणिधि जगाम सरसवूमि सुधर्मा द्रष्टुत्सुक तस्वणे म्यौ फल कंदरान्वितौ सुबलज्ञानगम्यौ दा वागदौ राजसन्निधिं तदऊचे सदुमुनिः सुधर्मां चारुलोचनां पिधा मे स्वाश्रमं सर्वानाकारयदि सुव्रते इदि तद्वचनं श्रुत्वा सुधर्मा शोकविह्वलभा तथैव सावधाना तनुप्राण इवागते सुशीलाराजपत्नी सा पीत्वा तद्वचनामृदम् अगमत् सा सुार्वाङ्गी प्रकृतिद्वयसंयुता सोमकान्दनपदिना मुनिपुत्र सरस्सरा गणेशस्कन्दसहिता शिवे वशि वसंयुता शुशुभे मार्गमध्ये सा वाचस्पतिपुरःसरा मन्त्रघोषयुतं प्रापभृगोराश्रममण्डलं नानापुष्पलताकीर्णं नानापक्षिविनादिदम् मार्जारान न कुलास्येना गजगावो मयूरकाः भुजङ्गापक्षिणः सिंह व्याघ्रा क्रीडन्ति यत्र वादि न सूर्यस्तपते न वर्षदिभृशमेको वर्षते च तदिच्छया विविशुस्ते हर्षयुदा मुनिपुत्र सराः तत्राद्भुतं व्याघ्रमृगाजिनस्तं ददर्श सूर्यप्रतिमं भृगुं तं राजाधपत्नीप्रकृतिद्वयं च ननाम बद्धाञ्चलिरब्रवीत् च राजोवाच अध्याशिषो मे सफलाद्विजेन्द्रद्विगेरिता धर्मचयस्तपोऽपि आजन्मतोऽहं परिपूत एष पिदुर्जनन्याश्च सुजीवितं मे भवदृशिः सम्प्रति हन्त्ययैनपूर्वार्जिधै पुण्यचहौ कृतापि आगामिकल्याणकरीमुनीन्द्रकालत्रये जन्मकरोधिपूतं सौराष्ट्रदेशे खलु पुरे कृतं राज्यमोखदृष्ठे भेदेन पापाद्विजदेवतादिपूजा कृदानीधिमदा मुनीन्द्रः आकस्मिकं मे दुरितं किमेतत् प्रादुर्बभूवोग्रतरं दुरन्तं येनाहमीदृक्कुदशां प्रणीदो जानेन किञ्चित्प्रदिकारमत्र अपायदां यान्दिकृता उपाया युष्मत्कृतोपायमुपायमी हे निर्वैरदां यान्दिः जातिवैरास्तवा श्रमेवा शरणम् प्रपन्नः सूत उवाच श्रुत्वे दिवचनम् तस्य भृगुस्तु करुणायुधः उवाच सोमकान्तं तं ध्यानेनालोक्य सुव्रतः भृगुरुवाच उपायं वच्मि नृपदे न चिन्तां कर्तुमर्हसि ममाश्रमगदा दुःखं न हिर्विन्दन्ति जन्मिनः जन्मान्तरकृतं चैव दुरितं ते नृपोत्तमा येनेमां गमितोऽवस्थां कथयिष्ये तदप्यहं कुर्वन्तु भोजनं सर्वे चिरकालं बुभुक्षिताः वनाद्वनान्तरं याता श्रान्धा क्लान्ताननाभृशं सुत उवाच युक्त्युक्त्वा स्नापयामास सुतैलाभ्यङ्गपूर्वकं भोजयामास चान्नानि षड्रसानि त्वनेकषः बुभुजुस्तेऽपि विश्रान्ता भृगोरमिद तेजसः आज्ञया मुनिवर्यस्य हित्वा चिन्तां दुरत्ययां मुनिना कल्पितायान्ते स्वराज्यं गमिता इव इति श्रीगणेशपुराणे उपासनाखण्डे भृगोराश्रमागमनं नाम षष्ठोऽध्यायः ओ